एष ह्यैन्द्रो वै जयन्तो गुणैर्नित्यं समाहितः येनासुरान् पराजित्य जगत्पातिशतक्रतुः स्वर्गमार्गाय कस्य स्याद्विग्रहो वै यथा तव मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितः मा स्थाः परान् राजन्नस्ति वीर्यं नरे नरे समं तेजस्त्वया चैव विशिष्टं वा नरेश्वर यावदेतदसम्बुद्धं तावदेव भवेत्तव विषह्यमेतदस्माकमतो राजन्ब्रवीमिते जहित्वं त्वं सदृशेष्वे मानं दर्पं च मागध मागमः स सुतामात्यः सबलश्च दम्भोद्भवः कार्तवीर्य बृहद्रथः श्रेयसो युयुक्षमाणास्त्वत्तो हि न वयं ब्राह्मणा ध्रुवम् शौरिरस्मि अनयोर्मातुलेयं च कृष्णं माह्वयामहे राजन् स्थिरो युध्य स्वमागध मुञ्चवा सर्वान् गच्छ यमक्षयम् जरासन्ध उवाच नाजितान्वै नरपतीनह मादग्मिकांश्चन अजितः पर्यवस्थाता कोत्रयो नमयाजितः न मयाजितः क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् विक्रम्यवशमानीयकामतो यत्समाचरेत् राज्ञः कृष्णकथं भयात् अहमद्य विमुच्येयं क्षात्रं व्रतमनुस्मरन् सैन्यं सैन्येन व्यूढेन एकैकेन वा पुनः द्वाभ्यां त्रिभिर्वायोत्स्येऽहं युगपत्पृथगेव वा वैशम्पायन उवाच मुक्तरासंधस्ह देवाषेचनम आज्ञापय तदाजात्सुर्भीम कर्म स तो सैनापति सस्तर्षभ कौशिक उपस्थिते। ययोस्तेनामनी राजन्हंसेतिडिम्भकेति च पूर्वं सङ्कथितं पुम्भिरन्द्रलोके लोकसत्कृते तं तु राजन्विभुः शौरी राजानं बलिनां स्मृत्वा पुरुषशार्दोलः शार्दोलसमविक्रमम् शार सत्यसंधो जरासंधं जरासंधम भुविमराक्रमं भागमध्यम मधुभर्मृधे